गणेशपुराणं क्रीडाखण्डम् अध्यायं सेवेण्टि सेवेन् क उवाच इति तद्वचनं श्रुत्वा क्रोधाद्वाह्निगणान् वमन् यथा सिंहोगजानिकं यादे तद्वद्ययौसुरान् सिन्धुर्मुष्टिप्रहारेण जखान बलसूदनं पपातस धरापृष्ठे वादाहद इव द्रुमः बालदेशे कुबेरं च हनौ च वरुणं यमं पृष्ठदेशे जखानासौ चक्राखादेन दैत्यराड तालुदेशे पापकं च मन्मथं लत्तयाघनद अनिलं पादखादेन शनैश्चरमबोधयत सोमं भौमं भ्रामयित्वा तत्याज भूदले बलाद पृष्ठभागेहनश्चैव शनकं च सनन्तनं नासत्यौ नारदश्चापि कुत्रापि च पलायिताः तद पलायिदा सर्वे दृष्ट्वा वीर्यं सूर्यास्तदा पदिता मूर्च्छिदा केचिद्दैत्यश्चक्रेण माधवं मुष्टिदेशे जघनासौ चक्रं तस्यापदद्भुवि माधवो माधवोगदया मूर्ध्नि दैत्यशं तमताडयद वञ्चयित्वा च शदधा गदां स्वां व्यचिक्षिपद ज्ञात्वा पराक्रमं तस्य प्रोचेत् तं मधुसूदनः वर दैत्य यत्ते मनसि वर्तते नैदादृशो मयादर्शि पुरुषार्थोत्सुरे क्वचिद् ततो ब्रवीदैत्यपथि परमाह्लादसंयुधः यदि तुष्टोऽसि देवेश यदि देयोपरो मम गंडकीनगरे मे वारुदो हरे सर्वस विभो नान्यम व्याजे वरम परम तदूजे महाविष्णु स्थाया नगरे तव दत्तो वरोय यद नून तदस् वशग तद सत्यलोके कैलासे वैष्णव पदे आस्तापय दैत्यपदीन् स्वयं शाक्रेपदे वसद तत्राप्यन्यं स्थापयित्वा रमापदियुदस्वयं स्वयं वाद्यन्दुन्दुभिनिर्घोषैस्वपुरीं गण्डकीं ययौ नुवन्ति बन्धिनस्तं तु नेदृशोऽभूत् पुमान् क्वचिद येन विष्णोर्गृहं स्वीयं जित्वा नायि सुरान् नागरास्तस्य समीपे वरुणं हरिं कुबेरं देवमुख्यांश्च ततः तदस्वभवनं ययुः ततः प्रोजे हरिं दैत्यो गण्डकीनगरे सुखं विहरस्वामरैः सार्धं तदसोऽपि तथाकरोद परितो दूरतो दैत्यो दैत्य नन्यान्यवेशयद ततो प्रोजु किं कृतं गरुडध्वजा त्यक्त्वा स्वविक्रमं किं त्वं स्थितोत्यानन्दनिर्भरः कथं कारागृहे प्राप्ता मृत्युरोगं गदा कथं कथमन्धो भवेदस्य भोगस्य जगदीश्वर तदऊचे करिः सर्वान् कालो हि दुरतिक्रमः कालेन जायते सर्वं ह्यसदे वर्धतेऽपि वा तस्मात् कालं प्रतीक्षध्वं कालयनं ग्रसिष्यति एवं जित्वा त्रिलोकीं स तदो दैत्यो जगौ सर्वं वृत्तान्तं पितरौ मुदा आशिषं दधतु स्थौ ज्ञात्वा पौरुषमस्यः तदो दैत्यो दुष्टमद्य समघोषयद देवद्विजगवामर्चा क्रियते येन केनचिद् सहन्तव्यो धवा साधुरानेयो मम गृहे प्राबोधयन् सिन्धुभजो दुत एवं स्थले स्थले भुङ्वा प्रासादमूर्तिश्च तोये गाधे जिक्षुपुः सिन्धोश्च प्रतिमां कृत्वा स्थापयन् परमादराद पूजार्थं राक्षसाश्चापि ततो यादा निजम्पतिं ऊजोर्वैनायकहर हरिभानुरमादिकाः प्रतिमा प्रविभज्या सुक्षिप्ता सर्वा महाजले तवैव वा प्रतिमास्तत्र स्थापिता राक्षसा अपि पूजार्थं स्थापिता स्वामिन्ना कताश्च तवान्तिकम् एवं धर्मस्य सर्वस्य वषत्कारान्न चाकरोद देवद्विजगुरूणां च पूजनं क्वचना भवद मेरुं जादा ऋषिगणा केचिद्भ्रंशमुपागताः एवं त्रैलोक्यप्रबला दैत्या जाताश्च विलीनानि धनं प्राप्ता साधवो देवतागणाः यथा देवगणमोक्षं प्राप्ता शृणुष्व इति श्रीगणेशपुराणे क्रीडाखण्डे सप्तसप्ततितमोऽध्यायः ओम्